तदपश्यमहं भ्रातुरसां प्रतमनुव्रजन् विमर्शं सङ्करादाने नायं कुर्यात् कदाचन दृष्ट्वा फलस्य नापश्यद्दोषान् पापानुबन्धकान् विविनक्तिनशौचम्यः सोऽन्यत्रापि कथं भवेत् संहिताध्ययनं कुर्वन् वसन् गुरुकुले चयः भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्वचयदा तदा कीर्तयन् गुणमन्नानामघिणी च पुनः पुनः तं वै मन्ये भ्रातरं तर्कचक्षुषा तं वै गच्छस्व नृपते सत्त्वां संयाजयिष्यति जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् उपयाजव च श्रुत्वा याजस्याश्रममभ्यगात् अभिसम्पूज्य पूजार्हमथ याचमुवाचः अयुदानि ददान्यष्टौ गवां याजय विभो द्रोणवैराभिसन्तप्तम् प्रह्लादयितुमर्हसि स हि ब्रह्ममिदां श्रेष्ठो ब्रह्मास्त्रेचाप्यनुत्तमः तस्माद्द्रोणः पराजयिष्ठ मां क्षत्रियो नास्ति तस्याम् पृथिव्याम् कश्चिदग्रणीः कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः द्रोणस्य शरजालानि प्राणिदेहराणि च षडरत्निधनुश्चास्य दृश्यते परमं महत। स हि ब्राह्मणवेषेण क्षात्रं वेगमसंशयं प्रतिहन्तिमहेश्वासो भारद्वाजो महामनाः क्षत्रोच्छेदाय विहितो जामदज्ञ इवा स्थितः तस्य ह्यस्रफलम् घोरमपधृश्यं नरैर्भुमि ब्राह्मं सन्धारयं स्तेजो हुताहुतिरिवानलः समेत्यसदहत्याजौ विहिते ब्राह्मं तेजो विशिष्यते सोऽहं ब्राह्मं तेजः प्रपेदिवान् द्रोणाद्विशिष्टमासाद्य भवन्तम् ब्रह्मवित्तमम् द्रोणान्तकमहम् पुत्रम् लभेयम् युधि दुर्जयम्